सन्त्वादिम् च मेजिता च ओम् शान्तिःशान्तिःशान्तेः युवागम् सम्प्रभता महेरण बहुभ्यः पञ्चामनपस्पशानम् वैवस्पतकम् सङ्गमनम् जनाना यमकम् राजानम् अविरादुपस्यता इदम् त्वा वस्त्रम् प्रथमन्वा गन्न वैतदो हयधिरा पुरा इष्टाभोत्तमनुसम्बस्य दक्षिणान्यथानीशाय वोढवे याभ्यामस्य साधनम् सुकृताम् चाभिगच्छता ऊषाश्वेतश्चावयतु प्रविद्वान् नष्टवशर्भवनस्य गोपाः परितृभ्योग्ेभ्यः सु ऊषे माशानुवेदसर्वासो अस्माकम् अभयतमेन सर्ववीरो प्रयच्छन् पुरगेधप्रविद्वान् आयुर्विश्वायः परिपाशयित्वा पूषात्त्वारस्कारत्वा दे देवः सिता दधातु भुवनस्य पदयम् महिः अग्रगे स्वाहा पुरुषस्त्रिया मर्यवे लघानि मृज्महे यथा महातृणा जलसहायति पुरुषस्त्रियाते प्राणमशिश्रथम् एवम् मागस्ताप्रियेऽहम् देवी तदे कृतवाकम् यदेशी विश्ववा रानवशम्भयम् तु यन्नारेवकम् मृणाना नित्य नौपक्त्वामर्थप्रेतम् विश्वम् पुराणमनुपालयन्ते तस्यै प्रजान्द्रविणम् च कथेः अभिलेव लोकमितासु वेतम् सुशेषजैः हस्तग्राभस्यमेतत्प्रत्यर्गनित्तमपि सम्बभूव सुवर्णम् हस्ता राजदानामृतस्य शिवे ब्रह्मणे तेजसे पराय अत्रैव त्वमिह वयगम् सुषे वा विश्वास्पृधा अभिमादेर्जयेम धर्महस्तादाददाना मृदस्य श्रिये क्षत्रायौ जे बलाय अत्रैव तमिह वयगम् सुषे वा विश्वास्पुधा इममग्ने चमसम् आरप्रियोम्यानास्तस्मिन् देवामृतामादयन्ता अग्नेर्वर्णयश्व सम्प्रोन्नमेतसापीप सा चेहानक्षन् पर्यङ्कयाते मैनमग्ने विदहो माभिशोच मा स्यजन्ति क्षिपो मा शरीरम् यदा श्रतम् करवो जातवेदोऽध्यमेनम् प्रहितात् पितृभ्यः श्रुतम् यदा करसिजातवेदोऽध्यमेनम् परिदत्तात् पितृभ्यः पिता गच्छात् पृथिवीति मेधामसा देवानाम् वशने भवादि सूर्यन्ते चक्षुर्विपातमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अपोवागच्छ इति तत्र हितमोषदेशप्रतिष्ठा शरीरैः अजो आर्खे अजोभागस्तवसातन्तपस्पतन्ते शोचस्तवृतन्ते अर्चिः शास्ते शिवास्तनुवजातवेदस्ताभृतहेमकम् सुकृतान्यत्र लोकाः अयम् वै त्वमस्मादृत्वमेतदयम् वैतश्रियोजी वैश्वानः पुत्रपित्रेण विकृजातवे लोमहेमकम् सुकृदान्यत्र लोकाः एतस्य पथोगोक्तारश्च भ्यस्वाहागेतस्य पथोरक्षितारश्च भ्यस्वाहा एतस्य पथोभिरक्षितारश्च भ्यस्वाहाख्यात्र स्वाहाख्यात्र स्वाहाभिलालपदे स्वाहा बलालपदे स्वाहाग्रयणमपदे स्वाहायमत्रणाधीमस्तस्मै स्वाहा यस्तपरम्पदेशयम् जायताम् वर्गाय लोकाय स्वाहार्विश्वायी निवक्षिदम् दातु ममामुदानस्थोर्ध इदम् तयेकम् परौ दयेकम् तृतीये रज्जोदितासंविशस्व संवेशस्तनुवेशालेऽधिप्रियो देवानाम् परमेश्वरस्ते भागेषुत्वेन हिरण्यपक्षम् वरुणस्तदौतयमस्तयो शगुणम् भुरण्यम् हरिद्रुवसारमेयौ स्वानौ चतुरक्षौ शपलौ साधुना पथा विदत्रागम् अपीहि श्वानो यमलक्षितारौ रक्षौपतिरक्षीक्षसा व्यागम् राजन् परिजेस्ति चेहिताम् मनो यमस्य मध्ये भद्रम् घृतमे कौपासते येभ्यमसुप्रधापजुताश्च देवाभिगच्छता ये युभ्यन्ते दे प्रधने शुशूरा सोयेत मुत्यजः एवा सहस्रदक्षिणास्ताश्च दे देवाभिगच्छता सर्वसागे दे, सर्वसायशुवर्गताः तपोये च कृते दे महत्तागश्च दे देवाभिगच्छता दे, अस्मन्वतेरेव देशरवभ्यमुत्तिष्ठत प्रतललालखायः अत्रायः मयेन सन्नशे वा शिवाय वयमैवायानुत्तरेम यद्वै देवस्य पवित्रकम् सहस्रसारम् कृतमन्तरिक्षे येना पुनादिभ्रमणात्तमार्थेतेनाहम् मागुम् सर्वतनम् पुनामिता निरपतिरिक्षमानाः धातुस्ताः सर्वापवनेन भवताः प्रदयास्मान्त्यमसस्परिपश्यन्तज्योतिरुत्तरम् एवम् ते दे वत्रासूर्यमहन्मज्योतिरुत्तमम् धातापुनादवितापुनादो अग्नेयस्तेजसा सूर्यस्य वच्चसा यन्ते अग्निमन्थाय विवक्तवे हिमन्दकुंशलयामधिक्षीरेण चोर्धकेन च यन्तमग्ने तमदहस्तमनिर्वाहया पुनः क्याम्बोरत्र जायताम्बाकदोर्वाव्यर्कषा शीतिके शीतिकावदह्नादुके अह्नादुकावति मन्दोक्यासुङ्गमयेमग्निस्वग्निगुं शमय सन्दे धन्मन्या वश्यमुते सन्त नोक्याः सन्देशमुद्र्याः वश्यमुते सन्तवश्याः सन्तु कोऽप्याः स्वधाभिः सङ्गच्छादवेदः सङ्गच्छस्व पृथिभिः सग्न परमे व्योम्य यत्र भून्मे वृणधे तत्र गच्छदत्रत्वादेवस्य वितादधातु यत्र कृष्णस्य गुणः पीडः सर्व उत वा शापः अग्निष्टद्युष्मायो ब्राह्मविवेश उत्तिष्ठातस्तनुवकम् सम्भरस्तमेहारमवा शरीरम् यत्र भोमे वृणधे तत्र गच्छदत्रत्वादेवस्य वितादधातु इयन्तयेकम् परभूतयेकम् द्वितीये न ज्योतितासंविदस्व संवेशनस्तनुवैचारिरेधिप्रियो दे देवानाम् परमेप्रे हिप्रभोक्र्यो मन् यमेण यम्यासंविधानोत्तमन्नाय मथिरो हेमम् अस्मन्वदेशितुः पवित्रय्या राष्ट्रापन्नादुद्वयम् तमदस्परिधाता पुनादो अस्मात्त्वमधिजातोयन्त्वम् वर्गाय लोकाय स्वाहा आयातु देवः सुमनाभिरोधिमोह वेहप्रयताभिरक्ता आसीतदायलेश्वयजाभक्ते प्रभाम्भरन्मानुषारे वयन्तः आसीतदग् समुदम् विधाने स्वातस्थे भवनृत यमाय दूता हविः यमकम्भयज्ञोगच्छत्यज्ञदूतो अलङ्कृतः यमाय क्षदवध्यवर्ध्युः तनो देवेष्वायमद्दीर्घमाय प्रतिवसे यमाय मधुमत्तमकुण्डाज्ञेहव्यञ्जहोदना निदन्नमरणेभ्यः पूर्वजेभ्यः पूर्वेभ्यः प्रसिभ्यः योऽस्य कौच्छजगतः पार्थिवस्यैकविद्वशी यमम् भङ्गश्रवो गाययो राजानवरोध्यः यमम् गायभङ्गश्रवो यो राजानवरोध्यः ते नापो नद्यो धन्वान येनोः पृथिवी दृढा हिरण्यकक्षाम् सुतरान हिरण्याक्षा नयः शफान् अश्वार्नश्च दोरान यमो राजाभितिष्ठति यमोदाधार पृथिवीम् यमो विश्वमिदम् जगत् यमायसवमित्रश्च यत्प्राणद्वाविलक्षितम् यथा पञ्च यथा षड्यथा पञ्चदशऋषयः यमञ्योऽविद्यात् स ब्रूयाते ृगे गायत्रे तिष्ठच्छन्दायमानो गामष्टम् पुरुषम् जगदे वैवस्वतोप्रतिपञ्च निर्माणवैर्यमः वैवस्वतेर्विच्यन्ते यमे राजनिते जनाः ये चैकसत्येनेच्छन्ते य उचारितवादिनः ते राजन्यः विवक्ष्यन्ते सायम् द्युक्त्वामुप देवाविष्कगेण पश्यन्ति ब्राह्मणाविष्टापचित्यते यस्मिन् वृक्षेषु पलाशय देवैः संविपदे यमः अत्राणाम् इस्पदे पिता पुराणानुवेदये वैश्वाररेता हस्रमुत्सकम् शततारमेकम् अस्मिन्नेव विचलम् पितामहम् प्रपितामहम् विभरत् पिन्वमाने दर्शन्धिवीमद्यामम् दयो निमनयश्च पूर्वः ्रत्सञ्जोत्रामगुम् समुद्रगुंशतधात्सम् यच्छमानम् भुवनस्य मध्ये घृतम् चिन्तनाय ज्ञेवायगुंसे परमे व्योमन् अवे रविरविदर्पतातो य प्रस्थपुराणाय च नूतनाः अहोभिरद्भिरक्तभिर्यक्तम् यमोददात्तवसानमस्मै वित्ेलानि शरीराणि पृथिव्ये मातुरुपस्थार्थेयाः शृणम् वाः शृणन् नाराः शृणम् षटतुलाङ्गलम्बरत्रावभ्यन्ताम् शुनमष्टामलिङ्ग्यशुनाग्रिया शुनमस्मातु धत्तम् इमाम् वाजम् यद्विचक्रतुपयः तेनेमापथ्यञ्चतम् श्रीरेवन्दामहे त्वार्वागे सु भगे भवान् यथा न सुभगा यथा न सुफलास्ति सवितानि शरीराणि पृथिव्यै मातु ज्योतिरास्ते दे भुवना विजायते यत्तर्जन्यः प्रतिवेदशापति यथा यमायहार्यमोपञ्च मानवाः एवम् वपामिहार्यम् यथा सामजीवलोके भूरयः चित्रोर्धचितश्रयद्वम् वितरो देवता प्रजापतिर्वः सादयदतया देवतया आप्याय स्पसन्ते उत्तेदभ्रान्वत्पदेवम् लोकम् नितौ कृषम् एतागस्थोनाम् पितरोधारयन्तेऽत्रायमः सादनात् ते विनोदो उपसर्पमातरम् भूमिमेतामगतम् पृथिवेगम् सुषेवा ओर्णामुदाय वदक्षिणावत्येशानिर्दित्यापश्चेष्टिसोपायनाष्टे भवसोपवञ्चना माता पुत्रम् यथा गजाभ्ययनम् भूमिर्ण उत्सन्दमाना पृथिवीतिष्ठन्ता ते ग्राविश्वाहाः स्मै शरणाः सन्तत्रे सन्तु धेनवः इगवत्सामोऽस्मै दुहानाविश्वाः सन्दनवस्फुरन्दे स्वधानिधीयते गृहे अक्षितिर्नाम ते असौ इदम् पितृभ्यः प्रभरेभ्यो जयम् उत्तरम् भरे मम यम्या संविधानः मात्वा वृक्षौ सम्पादि पृथिवी त्वम् वृक्षौ सम्पादयिवीमहि वैवस्पतग् गच्छादिराजे शरीराणि पृथिव्यै मातुम्भवार्यन्ते चक्षुर्गच्छदवातमात्माद्याम् च गच्छ पृथिवीम् च धर्मणा अपोपागच्छै दत्तमोढदेशप्रतिनिष्ठा शरीरैः परम्भ्यापले पन्थान्य स्वैतरा देवयानादे चक्षुष्पदे सन्तोषधेः कल्पन्तानि द्रिव्यास्त्वा लोके रादयाशर्मासितरो देवता प्रजापतिस्त्वा चारयरुतया देवतया अन्तरेक्षस्यत्वादिवस्तान् अपोपवागश्चीर्यागतः प्रसिगतस्वये देवानाम् कृतभागास्था एतादेव रक्षस्वताम् गोपायस्पता देवता प्रजापतिस्ता देवतया अभूपवान् श्रितवान् क्षीरवान् मधुमागस्तरुणे रसीत्तमृतान् पृथिवेन्द्यामुतोपरिकतः प्रसिकृतसर्वलयदये देवानागुम् श्रिः मधुभागा युगस्ता एषा ते लवसाक्षरा दवस्रा क्षरायुवाः क्षराच्युताक्षराताङ्गय स्वयान्वितला देवला प्रजापदिस्त्वादादे हृदया एतास्ते सुधामृता करोमि यास्ते तास्तेयम पितभिः संविधानोऽ करोतु वामज्जुनमृदीनाम् वयो ब्रह्मा नै विदुः तासाम् वामध्यादादले तरुभ्यो अपि धातवे दोर्वाणानि स्तम्बमाह वेलाम् प्रियतमाम् इमान्श्यानाम् भोजष्टानि विरोहतु काशानागस्तम्बमाहलक्षसावहते एतस्य पराभवन्नम्बमाह रथुनामोढेयम् प्रियाम् अन्वस्ये मूलम् जीवाकन् अस्य सूरदोहंवादशः शमुदे सन्तोधेः कल्पन्ताम् देशः सर्वाः इदमेवमेकोपरामार्तिमारामकाञ्चना तथा तदुभ्य कृतम् देवो वनस्पतिः आर्तै निवृत्यै द्वेषाच्यवनस्पतिः विधिरसि विधारया स्पृतघाद्वेगागम्पृतघाद्वेगागम् यवयवयास्पृतघाद्वेगागम् पृथिव्यङ्गच्चान्तरिक्षङ्ग चदिवङ्ग चतुषो गतुर्वर्ग चतुर्वर्ग चतुषो गच्छदिवङ्गान्तरिक्षङ्ग च पृथिवेङ्ग चापागचेश प्रस्पन्वतेर्यद्वै देवस्य पवित्रङ्गाराष्ट्रानुद्वयम् तम सत्परिधाता पुनातो आरोहतायुध्यपूर्वतमा न्यायलिष्ठा कारमत्यः कर्मिर्भवश्चितेनर्जरायुगौरिव अपनश्रोषु तघमग्नेषु सध्यालयम् अपनश्रोतलघम् प्रत्यये स्वाहा अनड्वाहमन्वारभामहे स्वस्तये स रन्द्र इव देवेभ्यो इमे सम्पार्णा भव इमे भद्रादेव प्रदेरावर्त्यन्नभो भद्रादेवभूतिन्नो अद्य प्रतरान्दधानाः वृत्यापदय्योपयन्तौ गदय भद्रासी याय प्रधरान्दधानाः जाधनेन शुद्धा पोता भव स यज्ञया सह इमम् जीवेभ्यः परिचिन्दसामानोऽनुर्धमे मृत्युम् दद्महे पर्वतेन इमानारे सुपत्नीराञ्जनेन सर्पिशासम् वृषन्दा अनश्रवो नीवा सुसेवारोहन् निमग्रेः यथा च तन्त्रीकृतम् जातकीमवनस्परी तेनामदस्य मूले नारादे भयामसि यथा त्वम्यासि एव शोचितलखमेष्यालयम् अपनशोचितलघम् सुक्षेत्रियादुकादुयावसूयाचे अपनश्वाचितरथम्भन्शोचितरथम् प्रगतग्नेः सहस्वदा विश्वतो अपनशोचितरथम् प्रगत्ते अग्ने सोरयो जाये महि प्रदे वयम् अपनश्वाचितरथम् अपनशोचितरथम् ोचितदघम् स नावयादिपरुषा स्पष्टये अपनशोचितम् बास्पत्यन्ददामखम् अपनश्रोचितदशम् उर्ध्वा दुर्गा नैवा बास्पत्यन्ददामघम् अपनशोचितम् आनन्दाय प्रमोदाय पुनरास्वान् गृहान् गौरश्व पुरुषः पशुः ब्रह्म क्रियते अपश्याम योतिमादरन्ते मृदागजीवाम् परिणीयमानाम् अन्धे प्रावृता सुन्नताम् मा गस्ताम् प्रियमाना देवीक्यदेशे विश्ववालानभसाम्बयन्ति भो नो लोकोपयसा वृणेः न्दोगम् रुद्रानाम्ना मुतश्चनाभिः प्रणवनायमाकामना सौभाग्यमस्ते चत्वाया ko oh.